श्रीमद्भागवत् महापुराणम् एकादशस्कन्धम् अद्वादशोऽध्यायः सत्सङ्गकी महिमा और कर्म तथा कर्मत्यागकी विधि श्रीभगवानुवाच न रोधयति योगो न साङ्ख्यं धर्म एव च न स्वाध्यायस्तपस्यागो निष्ठा पुरतं न व्रतानि यज्ञश्छन्दांसि तीर्थानि निमायमाः यथा वरुन्धे सत्सङ्गसगां सङ्गापहो हि मां सत्सङ्गेन हृदयतेयां यातुधानामृगाखगाः गन्धर्वाप्सरसो नागासिद्धाश्चारणगुय्यकाम् विद्याधरा मनुष्येषु रजस्तम रजस्तमप्रकृतयस्तस्मिन् तस्मिन् तस्मिन् युगे नघ बहवो मत्पदम् प्राप्तास्त्वन्त्वाष्ट्रकायाधवादयः वृषपर्वा बलिर्वाणो मयश्चाथ विभीषणः सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथ व्याधकुब्जा वृजे गोप्यो यज्ञपत्न्यस्तथा परे तेनाधीतसुधिगणानोपासितमहत्तमाः अव्रता तप्तपसत्सङ्गान् मामुपागताः केवलेन हि भावेन गोप्यो गावो न गा मृगाः येने मूढधियो नागासिद्धा मामीयुरञ्जसा यं नयोगेन साङ्ख्येन जानव्रततपोश्वरै व्याख्या स्वाध्यायसंन्यासै प्राप्नुयाद्यत्नवानपि रामेण सार्धं मथुरां प्रणीते स्वाफल्किनामै्यनुरक्तचित्ताः दिगाढभावेनमे वियोगतिव्राधयोऽन्यं ददृशो शुखाय तास्ता पाप्रेष्ठतमेतनीतामयेव वृन्दावनगोचरेण क्षणार्थवत्ता पुनरङ्गतासां धीना मया कल्पसमा बभूवो यथा समाधौ मुनियोद्धितो येन प्रवेष्टायुव नामरूपे मत्कामारमणं जारम् अश्वरूपविदो बलाः ब्रह्म मां परमं प्रापु सङ्गाक्षतसहस्रशः तस्मात्त्वमुद्धवो सृज्य चोदनां प्रतिचोदनां प्रवित्तं च निवित्तं च श्रोतव्यं सुतमेव च मामेकमेव शरणम् आत्मानं सर्वदेहिनां या हि सर्वात्मभावेन मया शाह्य कुतो भयः उद्धौ उवाच संशय शृण्वतो वाचं तव योगेश्वरेश्वर न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः श्रीभगवानुवाच स सजीवो स जीवो विवरप्रसूति प्राणेन घोषेण गुह्यं प्रविष्टः मनोमयं सूक्ष्ममुपेत्यरूपं मात्रा स्वरो वर्ण इति सविष्ठ यथा नलखके निलबन्धुरोस्मां बलेन दारुण्यधिं मध्यमानः अणुप्रजातो झविषासमध्यते तथैव मे व्यक्तिरयं हिवाळी एवं गदि कर्मगतिर्विसर्गो घ्राणो रसोजगस्पर्शुतेश्च सङ्कल्पविज्ञानमथाभिमानसूत्रं रज सत्वतमो विकारः अयं हि जीव त्रिविदब्जयोगी अयं हि जीवत्रिविदब्जयोनि अव्यक्त एको वैसास स विश्लिष्टशक्तिं बहुधेव भाति बीजानि योनिं प्रतिपद्य तद्यद्वत् यस्मिन्निदं प्रोतमशेषमोतं पटो यथातन्तुवितानसंसार संसा। एष संसारतरो पुराणकर्मात्मकं प्रसूते देयस्य बीजे सतमूलन् मूलस्त्रिणालः पञ्चस्कन्ध पञ्चरसप्रसूते दशैकशाखो दिसुपर्णनीड श्रिवल्कलोन्द्रिफलोर्कप्रविष्ट अदन्ति चैकं फलमस्य गृध्रा ग्रामे चरा एकमरण्यवासाः हंसाय एकं बहुरूपमे मायामयं वेद स वेदवेदम् एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीर विभेष्ट्यं जीवाशयमप्रमत्तः सम्पद्य चात्मानमतं त्यजास्त्रम् इति श्रीमद्भागवते महापुराणे पारमहंसां सहितायाम् एकादशस्कन्धे द्वादशोऽध्यायः